मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टीन् नरनारायणमार्कण्डेयसमागमं श्रीगणेशाय नमः वालकिल्यावूचुः वदभानो महायोगिन्नरनारायणावृषी किं चक्रतुस्ततः सर्वं विशेषतः रविरुवाच स्वाश्रमेत्तौ स्थितौ देवौ नरनारायणावृषी विष्णुना कथितो योगः साधयामस दुः परं क्रमेण शान्तिमापन्नौ गणपत्यौ बभूवधुः गणपस्य महामन्त्रं शिवात् सङ्गृह्य जेपदुः चतुरक्षरकं मन्त्रं हैरम्बस्य विशेषतः मूर्तिं रत्नमयीं कृत्वा पूजयेता महामुनी हैरम्बस्य हृदि ध्यानं चक्रदुःपरमादृतौ शान्तिं प्राप्तौ तदो विप्रा न मुञ्चन्तौ गजाननम् एवं वर्षशदे पूर्णे तयोराश्रमगो भवत हेरम्बसिंहगो भूत्वा नागयज्ञोपवीधवान् चतुर्बाहुधरश्चैव त्रिनेत्रो भूषणैर्वरैः भूषितसिद्धिबुद्धिभ्यां युधो लम्बो दरप्रभुः नानापुष्पमयीं मालां त्रिशूलम् उद्गरं तथा अङ्गुशं च करैर्विप्रा दधानस्तेजसायुधः एतादृशं च हैरम्बं दृष्ट्वा तौ मुनिसत्तमौ प्रणेम दुर्दण्डवत्तु पादयोस्तस्य योगिनौ हेरम्भं तद उद्धाय पूजयेतां यथाविधि पुनस्तुष्टुवतुस्तत्र तौ प्रणम्य गजाननं नरनारायणावोचदुः नमस्ते गणनादाय भक्तसंरक्षकायते भक्तेभ्यो भक्तिदात्रे वैहे रम्बाय नमो नमः अनादानां विशेषेण नाथाय गजवक्त्रिणि चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ढुण्ढये सर्वसाराय नानाभेदप्रचारिणि नमः भेदीनाय दवाय नमश्चिता सिद्धिबुद्धिपतेभ्यं सिद्धिस्वू योगा योगनाथा शूर्पकर्णा ते नम सगुणा नमस्तुभ्यं निर्गुणय परात्मेपूज्याय सर्वाय दवाये देवा नम ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायकसुखशान्धिधरायैव नाभिशेषाय ते नमः पूर्णाय पूर्णनादाय पूर्णानन्दाय ते नमः योगमायाप्रचालाय खेलकाय नमो नमः अनादये नमस्तुभ्यमादिमाध्यान्धमूर्तये स्रष्टे पात्रे च संहर्त्रे सिंहवाहायते नमः गदाभिमानिनां नाधस्त्वमे वात्र न संशयः तेन हे विनायक विनायकनमोऽस्तु देव किं स्तुवस्त्वां गणाधीश योगाभ्येदमयं परम् अतस्त्वाम् प्रणमा वो वैतेन तुष्टो भवप्रभो एवमुक्त्वा न तौ तत्र नरनारायणावृषी तावुद्धाप्यगणेशान उवाच खननिस्वनः हेरम्ब उवाच वरं चित्तेप्सिदं दास्यामि ब्रूदम्भक्तियन्त्रितः महाभागवादिमुनियोगमार्गप्रकाशकौ भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेद् पठदे शृण्वदे चैव भोक्तिमुक्तिप्रदं तथा यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदं भानुरुवाच हेरम्बवचनं श्रुत्वा हर्षितौ मुनिपुङ्गवौ कृताञ्जलिपुडौ चो भावूचतुस्तं गजाननम् यदि प्रसन्नभावेन वरं दास्यसि विघ्नप तदा दे भक्त्रिमुग्राम्नौ देहि चाव्यभिचारिणीं तथेधिगणनाधस्तौ जगादभक्त्रिभाविदः अन्तर्धानं चकारासौ स्वानन्तस्तो बभूवः ततस्तौ नित्यमत्यन्तं गणेशभजने रतौ हेरम्बेदि सदा मन्त्रं वाण्या प्रोच दुरादराद तदो बहुगते काले मार्कण्डे आश्रमे द्विजाः जग्मधुर्ज्ञानदानार्थं करुणायुक्तमानसौ नरनारायणौ दृष्ट्वा मार्कण्डे यो महामुनिः प्रणनामस्य साष्टाङ्गं पूजयन् भक्त्रिसंयुतः पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः उवाच तौ विनीतात्मा मार्कण्डेयो महामुनिः मार्कण्डेय उवाच धन्यं मे जन्मविद्या च तपो ज्ञानादिकं तथा धन्यौ मे जनकौ चैव युवयो पाददर्शनाद एवं नानाविधैर्वाक्यै संस्तुतौ मुनिपुङ्गवौ उचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ नरनारायणवूचदुः मार्कण्डेयवृणुष्वत्वं वरं स्वं मनसीप्सितम् तवातिथ्यकृतेनैव सन्तुष्टौ नात्र संशयः तयोर्वचनमाकर्ण्यमार्कण्डेयः प्रतापवान् प्रणम्य तावुवाचार्थभक्तिनम्रात्मकन्धरः मार्कण्डेय उवाच ज्ञानं शान्तिप्रदं पूर्णं वदतं मुनिसत्थमौ तेन तृप्तो भविष्यामि शान्तियोगपरायणः दर्शयेद्धां महामायां तां ज्ञात्वा भक्तिरेव गुरोःपादे दीयता मे वरस्त्वय्यं तथेदितं महात्मानऊचदुर्ज्ञानमुत्तमं शान्तियोगप्रदं पूर्णं गणेशं मुनिपुङ्गवौ ओं तस्यदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे समागमो नामत्रयो नामत्रयोदशोऽध्यायः ओम्